श्रीमद्भागवत् महापुराणं नोम स्कन्ध अथाष्टमोऽध्यायः सगरचरित्रशेषोकुवाच हरितो रोहित सुसुतश्चम्पस्तस्माद्विनिर्मिता चम्पापुरी सुदेवोतो विजयो यस्य चात्मजः भरुकत्रसुतस्तस्मान् बृकस्तस्यापि बाहुकः ोरिभिर्हृन् भूराजा सभाज्यो वनमाविशत वृद्धं तं पञ्चतां प्राप्तं महिष्यनो मरिष्यते और्वेण जानतात्मानं प्रजावन्तं निवारिताम् आज्ञायास्यै सपत्नीभिर्गरो दत्तोऽन्धसा सह सहतेनैव सञ्जात सगराक्षो महायशाः सगरश्चक्रवर्त्यासि सागरो यः सुतै कृतः यस्तालजङ्घान् यवनाच्छकान् हय हैबर्वरान् है नावधीतगुर्वाक्येन चक्रे विकृतवेषिणः मुण्डाक्षमश्रुधरान् कांश्चिन् काश्चिन्मुक्तकेशासमुण्डितान् अनन्तर्वाससकाश्चेन् अबहिर्वाससोऽपरान् सोऽस्वमेधैरजयत सर्ववेदसुरात्मकम् अर्वोपदिष्टयोगेन हरिमात्मानमीश्वरं तस्योष्ठं पशुं यज्ञे जहाराश्वं पुरन्दरः सुमत्यास्तनया दृप्ता पृतुरादेशकारिणः हयमन्वेषमाणास्ते शमन्तान्यन् खनन्महिं प्रागुदित्या दसि हयं ददिशु आस्ते मेलितलोचनः हन्यतां हन्यतां पाप इति षष्ठीसहस्रिणः उदायुधा अभीययुरून् मिमेष तदा स्वशरीराग्निना तावन्महेन्द्र हृदियचेतस महद्यतिक्रमता भस्मसाधुं भवन् क्षणात् न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि कथं रोषमयं विभाव्यते जगद्पवित्रात्मनिके यस्यैरिता साङ्ख्यमयी दृढेव नौ यया मुमुक्षुस्तरन्तरते दुरत्ययं भवान् मम मृत्युपथं विपश्चितः परात्मभूतस्य कृतं पृथङ्मतिः यो समञ्जसी इत्युक्तश के सिन्यानिपात्मजः तस्य पुत्रोऽसु मान्नाम पितां महिते रतः असमञ्जस आत्मानं दर्शयन्नसमञ्जसं योगी योगाद्विचालितः विचालितः गर्हितं लोके ज्ञातीनां कर्मविप्रियं सर्व्यां क्रीडतो बालान् प्रास्यद्युद्धे द्वे जयञ्जनम् एवं वृत्त परित्यक्तपित्रा स्नेहमपो ह्य योगैश्वर्येण बालास्तान् दर्शयित्वा ततो ययौ अयोध्यावासिनः सर्वे बालकान् पुनरागतान् दृष्ट्वा विसि स्मिरे राजन् राजा चाप्यन्वन्वतप्यत अंशुमाश्चोदितो राज्ञातुरङ्गान्वेषणे ययौ तृभ्यखातान्पततं धस्मान्ति दधिसेहयम् तत्रासीनं मुनिं व्यक्ष कपिलाख्यम् अथोक्षजम् अस्तौ च समाहितम् अनाह महान् अंशुमानुवाच न पश्यति त्वां परमात्मनो जनो न बुध्यतेऽद्यापि समाधियुक्तिभिः कुतो परे तस्य विसर्ग शरीरधे विसर्गश्रेष्ठा ये वेदभाज त्रिगुणप्रधाना गुणान् विपश्यन्त्यवातमश्च यन्मायामोहितचेतसस्ते विदुष्वसंस्तेऽं थं न बहिः प्रकाशाः त्वं त्वं तं त्वमाहं ज्ञानघनं शभाव प्रध्वस्तमायागुणभेदमोहै सनन्दनाद्यै मनभिर्विभाव्यं कथं हि मूढपरिभावय प्रशान्तमायागुणकर्मलिङ्गं मनामरूपं सदसद्विमुक्तं ज्ञानोपदेशाय गृहीतदेहं न मामहे पुराणं त्वन्माया रचिते लोके वस्तुबुद्ध्या गृहादिषु भ्रमन्ति कामलोभे श्यां मोहविभ्रान्तचेतसः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः मोहपाशो दृढच्छिन्नो भगवन्तो दर्शनात् श्रीशोकुवाच इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः अंशुमन्तमुवाचेदम् अनुगृह्य धिया निप श्रीभगवानुवाच अश्वोऽयं नियताम्बस्स पितामहः पशुस्तव मे पितरो दग्धा गंगां नेतरत् तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् सगरस्तेन पशुना क्रतुशेषं समापयत् राज्यमंसुमतिन्यस्य निःस्पृहो मुक्तबन्धनः और्वोपदेश्यमार्गेण देभे गतिमनुत्तमम् ए श्रीमद्भागते महापुराणे प्रहंसां चैतायां नमो स्कन्दे सगरोपाख्यारे अष्टमोऽध्यायः